संदेशह, ट्वेंटी 2019, बालमोदिनी धैर्यवती महिला कथाकार सुधीरगु सम्राट अशोक आसत महापराक्रमी एव लक्षणं इति साम्राज्य विस्तर एव चक्रवर्तिणम तदा तदा तसैन्य ग विविधान् देशान् वशीकरोति स्म विजयपुरीराज्यस्य राजा वीरासेनः शान्तिप्रियः न्याय्येन मार्गेण शासनं कुर्वन् सर्वदा प्रजाहितमेव चिन्तयन् जनप्रियतां प्राप्तवान् आसीत् सः कदाचित् अशोकः दण्डयात्रां कुर्वन् विजयपुरीम् आक्रान्तवान् वीरसेन स्वराज्यरक्षणाय युद्धं कृतं तथापि पराजयः प्राप्तः अशोकः तं कारागारे अस्थापयत् अशोकः एव तस्य देशस्य सिंहासने उपविश्य शासनम् आरब्धवान् कदाचित् अवगुण्ठनधारिणी काचित् महिला राज्यसभाम् आगत्य न्यायं याचितवती किम् अन्यायं प्रवृत्तं भवत्याः विषये अशोकः अपृच्छत् राज्यसैनिकाः दुराचारं कुर्वन्तः अस्मदीयां भूमिं सम्पत्तिं च वशीकृत्य मम पतिं कारागारे निक्षिप्तवन्तः सन्ति सा अवगुण्ठनधारिणी महिला अवदत् एतस्य श्रवणात् अशोकः नितरां खिन्नः यत्र मम शासनं स्यात् तत्र एतादृशम् अन्याय्यं कथं प्रवर्तेत एतादृशः दुराचारः केन तं यथायोग्यं दण्डयिष्यामि इति अवदत् सः तस्य दण्डनं कष्टाय महादण्डनायकः अपि तं विरुध्य किमपि न कुर्यात् सा महिला अवदत् निर्भयतया तस्य विवरणं श्राव्यताम् अहं स्वयं तस्य विचारणां विधाय तं दण्डयिष्यामि अशोकः दृढस्वरेण अवदत् निष्पक्षपातः व्यवहारः किमत्र भवितुमर्हति अथ किं साम्राज्यः अशोकस्य मम शासने न्यायनिर्णयविषये पक्षपातः कदापि भवितुं न अर्हति तदा महिला तत् अन्यायं कृत्य कृतवान् भवानेव मम पतिः शान्त्या न्याय्येन च राज्यं परिपालयन् भवतः अहितं किमपि न कृतं तेन तथापि भवता अस्मदीयं राज्यं वशीकृत्य मम पतिः कारागारे स्थापितः किम् एतत् इति वदन्ति अवगुण्ठनम् अपनीतवती तस्याः सात्विकं क्रोधं धैर्यं वीरोचितं व्यवहारं च दृष्ट्वा अशोकः आश्चर्येण स्तब्धः विना कारणं मया वीरसेनस्य राज्यं वशीकृतं राजा कारागारे स्थापितश्च यत् तत् अनुचितम् इति सह अवगतवान् अतः सः राज्ञीं क्षमां याचित्वा वीरसेनस्य विमोचनाय आज्ञां कृतवान् परस्परं वशीकृतवान् जनः कीदृशेन दण्डेन दण्ड्येत इति न्यायपण्डितान् सह अपृच्छत् देशात् निष्कासनीयः भवति तादृशः इति अवदन् न्यायपण्डिताः ततः अशोकः वीरसेनं विजयपुरीसिंहासने पुनः प्रतिष्ठाप्य तं स्नेहेन प्रीत्या च आलिङ्ग्य स्वदेशं प्रतिगतवान् कथा